हरिः ओं देवसि त्वा सवितुः प्रसवेश्विनोर्वां पूष्णो हस्ताभ्यां आददेनार्जसीदमः गुणरक्षसांग्रीवा अभिवृन्दामि जवो जि जवयात् पथिवे शुंधन दोगा विदेखदना देखदनमी अग्रेणीरिस्वेज उन्नेज्ता धरिवास्था देवस्वा सविता मध्वान तुझु विपलाभ्य सौदीभ्या मग्रेणास्पृक्ष आन्तरिक्षं मध्ये नाथिवीमुपरेणा दृपूः जाते धामान्ष्णीव मध्यैर्यत्र गावो भूरि शृङ्गा अयासा अत्राहत दुर्गायच्च विष्णोः परमं पदमवभारि भूरि ब्रह्मवनि त्वा क्षत्रवनिरायस्को गवनि प्रजुहामि ब्रह्मदृग् क्षत्रन्द्रिगुंहायुर्विगुं अप्रजान्द्रिगुहो विष्णोः कर्माणि वश्य दजतु व्रतानि वशे इन्द्रस्य दुज्याः सखा तद्विष्णोः परमं पदग् सदा पश्यन्ति सूरयाः जीवीवदक्षुरातदम् परिवीरधिपरित्वा दैवीर्विशुभ्ययन्तां परीमञ्जमान रायो मनुक्षाणाम् दिवाः सूनुरस्येभ ते पृथिव्यान्दोग आरण्यस्ते पशुः उपा वीरस्युपदेवान्दैभिर्भिषाः प्रागुरुषिजोद्वन्नितमान् देवत्वसर्वसुरम व्यादे स्वदन्तां रेवती रमध्वं बृहत्पदे धारया वसूनि देजस्य त्वा देवहविः पाशेन प्रतिमुञ्चामिधरेखा मानुकः देवस्य त्वा सवितुः प्रसवेस्विनोर्बाहुभ्यां पूष्णो अधिनस्त्व गजीभ्यो नु त्वा मातामन्यतामनुपितानुप्राता सगर्व्यो नु दन्दे सन्दे प्राणुपादेन गच्छधाकुसमङ्गानि जलत्रैः सञ्जपति राशिखा ऋतेनाक्तौ पशुं स्त्राये धाकुरेवति जजमाने प्रियन्धा आविषु पुरोरन्दर्भ्याच्छुर्देवेन पादेनास्य हावि भस्मना जज समस्तव वरिहु वरिभित्ने रत्नवदिन्धाः स्वाहा देवेभ्यो देवेभ्यः स्वाहा मा हि भूर्मा प्रेदागुर्नमस आतानां नर्वा प्रेहिर जगुल्या उव हृद ज्या अनु देवीरावः शुद्धा पूर्वपुषु परिमिता देवे भुषुपरितायं परिवेष्टारो भूयास्मो भाजन्दे शुन्धामि प्राणन्दे ुन्दामि यकुष्टे रुन्दामि श्रोत्रन्दे छुन्दामि नाभिन्दे युन्धामि मिढन्दे युन्दामि पायुन्दे युन्दामि चरित्रां ते युन्धामि मनस आप्याय तां आप्यायतां प्राणस आप्यायतां जकृष्ट आप्यायता घुश्रोत्सन्द आप्याय तां जगते क्रूरञ्जलास्ति तं दत आप्याय तान् नित्याय तां दत्ते रुज ऋमहोभ्यः ओत्रायस्मस्वरिते मयि रीः रक्षो विधिष्ठामि मः रख्यो रक्षो ववादपि रमः गुं रक्षो धमं तमो नयामि वृतेरद्यावा वृजीवि प्रोनुवादाम्बायो व्यस्तोपादामग्निराज्यस्य वे वेतु स्वाहा स्वाहा वृजे इदमापाः प्रवहता वजञ्चमनं च दतो यच्छा विद्रोहा नृतं य शेते अभिरुम् आपो मादस्मादेन सह पवमानश्च मुञ्चतु सन्दे प्रे अज विश्वास्त्रीणा स्वावस्था समरिणन्वादभ्यत्वाध्याद्यै पूष्णो नपुषा ऊक्मणो व्यधिह सयुतन्वेखः घृतं घृतपावानाः दिशाः प्रदिश आदिशो गिरिश उद्दिशो युगाः स्वाहा ऐन्द्राः प्राणो अङ्गे अङ्गे निदीद्यन्द उदानो अंगे अङ्गे निदीताः देवत्व भूरिते समेतु स लक्ष्माद्विगुरूपं भवाति देवत्राजन्तमवधेदघायो नु त्वा मातापितरो मदन्तु समुद्रं गच्छ स्वाहा दर्घं गच्छ स्वाहा देवगुञभितारं गच्छ स्वाहा मित्रावरुणं गच्छ स्वाहाहोरात्रे गच्छ स्वाहाच्छन्दा गुरि गच्छ स्वाहा ्यावावृजीवी गच्छ स्वाहा जत्यां गच्छ स्वाहा सोमां गच्छ स्वाहा दिव्यं नभो गच्छ स्वाहाग्निं परिष्वा नरं गच्छ स्वाहा मनो मे हार्दि यच्छ दिवन्ते वो मौघीरे गुषीर्धाम्नो धाम्नो राजंस्ततु वरुणनु मुञ्चो यदाहुरज्ञापिणेतिशपामहे ततु वरुणनु मुञ्चो सुमित्रिया आपो गदयः सन्तु दुर्मित्रियास्तस्मै वेति जन् लिह्वाहा हरिक्मदीर् इमा आपो हविष्माविवासति हिप्मान् देवो अध्वरो हविमां अस्तु सूर्याः अग्निर्भोपन्न सदलिता दयामिन्द्राग्न्योर्भावदेहितमिदरुणयोर्भावदेहित विश्वेदान् देवानां भा गेयीष्ठो अमूर्जा उपसूर्जेदाविभासूर्जासोः ता नो हिन्द्वन्द्वध्वरं हृदेत्वा मनसेत्वा दिवेत्त्वा सूर्यायत्वा दिविदेवे गोत्रालक्षो सोमराजन् विश्वास्त्वं व्रजा उपावरोह विश्वास्त्वां व्रजा उपावरोहन्तु शृणुत्वग्निः समिदा हवं मे शृण्वन्त्वा भोरिवराष्टदेवीः श्रोताग्रावाणो विदुहोदर् शृणोतु देवः सविता हवं मे देवीरापो अपान्नवाद्यो वपूर्मिरेहविख्य इन्द्रियावन्मदिन्तमः तन्देवेभ्यो देवतारुग्रवेभ्यो देहाम्भाव तस्मां कार्यविरधिरं चत्वायामि समापो अधिरमदसमूहगीभिरोहीः जमग्निवृच्छुमध्यमवाप्पदेहुजुनाः स्रजन्ताय त्व दीर्घा स्वाहा देवस्य त्वा सवितुः प्रसवेस्विनुर्बाहुव्यां पूष्णोस्ताभ्याम् आददे उत्तमेन पविनो रजस्वन्तं मधुमन्तं वयस्वन्तभ्यास्तदेव शूदसर्वलत मामनो मे सर्वं मे सर्वं मे सर्वुर्मि सर्व श्रोत्रं मे सर्वदात्मानं मे सर्वं सर्वजद पशून्मे सर्वज गणान्मे सर्पयत गणामे मा वृतेभन् इन्द्राय त्वा वधुमदेरुद्रवत इन्द्राय पाद्यवत इन्द्राय पाभिमादिघ्ने येनाय त्वाजोमवृतेघ्नये त्वाराय कोहदे जो जगते सोम विविध्यो जिव्यांजुराव तेनास्मुरायेजी राजो मात्रास्तृचतुरो राजोहूता अमृत पत्नी सा देवीर्देव्य नोपूता सोमस्बो भिर्मासं विद्धा ऊर्जन्द त्रजिगणे विर्विशति वीरये ऊर्जन्दताम् पाप्मा नसो न सोमः त्यागपाबुदगधराक्षवदि आधावन्तु अम्ब निखपरसमरीर्भिरम् त्वमङ्गप्रजपूजिगो देवाः जरिष्ठमर्त्यम् न त्वदन्योमभवन्नस्ति मर्डितेन्द्रब्रवीमिते ध्वजाः